मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं 43 त्रि भक्तिमार्गवर्णनम् श्रीगणेशाय नमः दक्ष उवाच धन्योऽहं कृतकृत्योऽहं श्रुत्वा स्वानन्दजां कथां विस्मितो योगिराजेन्द्र तस्य नमं तस्थुना ब्रूहि मे सर्व यशस्यक्तिज गाण नृपादूल उपतिष कि गणेशलोक सोपि बभूव वद तत्क्र गणेश भजदे कथमप्यहो मुद्गल उवाच गार्गेण नृपवर्यश्च गाणपत्येन शिक्षितः गाणपत्येन मार्गेणा भजत्तं गणनायकं स्कन्देन स्थापितस्तत्र लक्षो नाम गजाननः तं नित्यं सेवयामास नन्यभावेन विघ्नपम् न गणे स्यात्परं किञ्चिज्जानादिनृपसत्तमः एकनिष्ठस्वभावेन भजत्तं लक्षविघ्नपं दक्ष उवाच एकनिष्ठात्मिकां भक्तिं वद मेन्यां च मुद्गल यया विघ्नेश्वरसाक्षात्सन्तुष्टो जायते नृणाम् मुद्गल उवाच पञ्चायतनपूजां वै तथाग्ने सेवनं परं द्विजानां नित्यमेदत्ते कथितं सर्वसम्मदं विघ्नरूपं महाकोरं परत्रेह च बन्धकं ब्रह्म मार्गस्य संरोधकारकं विघ्नि सर्वदा तं जयेद्विघ्नराजस्य पूजनेन नरोत्तमः विद्यार्थं शङ्करं सोऽपि पूजये नित्यमादराद यशोर्थं केशवं चैवार्योग्यार्थं रविमञ्जसा सौभाग्यार्थं नरस्तद्वत् पूजये जगदम्बिकाम् अग्निं होमादिमार्गेण कर्मसिद्धये देवादीनां विभागार्थं सर्वेषां तोषकारकम् एवं मत्वा तु सेवनं सदा स्वधर्मस्य प्रजानार्थब्रह्मार्पणतया किल अथवा कामनायुक्तः स चेत्तदपि तादृशम् कुर्यात्कर्माङ्गदेवेभ्यः समर्प्य सकलाम् क्रियाम् सर्वे नामानरूपाश्च तस्य प्रोक्ताः प्रजापदे स्वधर्माचरणम् श्रेष्ठम् जानीते सर्वसौख्यदं तत्र विघ्नेश्वरम् साक्षान्मध्ये संस्थाप्य सर्वदा ईशान्यां विष्णु मे वत्वाग्नेय्यां शम्भुं प्रपूजयेद् नैरृत्यां जगदम्बां च वायव्यां रविमादराद पञ्चायदनभावेन पूजयेत् पञ्चदेवताः सर्वेषां पूज्य भावाद्वै सर्वाग्रे पूज्यभावतः ज्येष्ठराजस्वरूपाच्च मध्ये तिष्ठति विघ्नवः अथवा पञ्चदेवेषु मन्त्रं गृह्य स्वभावजं एकस्य तस्य मध्ये स्थापनं कुरुते स्वयं सर्वं कलांशरूपस्थं पञ्चायतनकस्य वै पूजितेषु प्रजानाथ पञ्चसु पूजितं जगत् देवेन कार्यसिद्ध्यर्थं नानादेवाकृताः पुरा ते सर्वे तत्स्वरूपाश्च पूजनीया नरेण वै इयं सर्वात्मिका भक्तिकथिता च प्रजापते स्वेष्ठभावेन सर्वत्र परात्तध्यानकारणात् अधुना शृणुदक्षत्वमेकनिष्ठां महाद्भुतां स्वल्पकालेन भक्तस्य सिद्धिदां परमप्रियाम् स्वस्येष्ठदेवतायां तु विश्वं सर्वं प्रतिष्ठितं तस्य पूजनमात्रेण सर्वं सम्पूजितं भवेद अनन्दरूपभावेन सर्वत्र कलया स्वयं तिष्ठदि पूजनं तेषां न चराचरमयो देवः पूजनीयं चराचरं केनापि तत्र विप्रेन्द्र भवेच्च सङ्ख्यभावदः चराचरं पूजितं चेत् तदपि तस्य रोमगं ब्रह्माण्डकूढमेदं वदन्ति मुनयो परे यस्य रोमाञ्चरन्ध्रे शुब्रह्माण्डानां हि कोडयः अधः पूजनं न भवेत्कदा भक्तवात्सल्यभावार्थं देहधारी बभूवः देवस्तस्य भवेत् सर्वं पूजनेन सुपूजितम् अनेन निश्चयेनैव पूजयेत्स्वेष्टदैवतम् अन्येषां क्षोभतोषौ सदा नेच्छदि चेदसा नान्यान्निन्देन वै दक्षस्तूयादेहत्वमाश्रितः स्वेष्ठदेवपरो भूत्वा भक्तिं कुर्याद्विशेषदः नरो विघ्नेश्वरेणैव सदायुक्तं प्रजापदे स्वेष्ठदेवं समापूज्य सिद्धिं स लभते परां येकनिष्ठा महाभक्तिर्न भवेत् तत्र खण्डिताः तत्र मार्गं प्रवक्ष्यामि सर्वसंशयनाशनं यथा स्वशाखया संयुक्तं सन्ध्यादिकमाचरेत् तदाग्रपूज्यभावेन पूजयेद्गणनायकं सर्वेषामादिपूज्योऽयं सर्वादौ वेदवाददः अन्यथा वेदवैरुध्यात् सकला नश्यतिक्रिया शिवविष्णुमुखादीनामग्रपूजा न विद्यते सर्वादौतेन ते त्याज्या न त्याज्योऽयं गजाननः अन्यच्च शृणु वाक्यम् सर्वेभ्यः फलदायकः गणेशो नात्र सन्देहसिद्धिबुद्धिसमन्वितः धर्मार्थकाममोक्षाश्च ब्रह्मभूतत्वमञ्जसा सिद्ध्यधीनं प्रजानाथ वेदवाददः कर्ता बुद्ध्या समायुक्तस्वेष्टदेवस्तयायुधः बुद्ध्यधीनं जगत् सर्वं ज्ञानं देहादिकं परं तयोस्वामी गणेशानो ब्रह्मणस्पदिवाचकः सर्वादौ तमसम्पूज्य नारकी भवे भवेन्नरः यदा गणपतिर्दक्ष सर्वादौ पूजितो न चेद् पतिव्रते सिद्धिबुद्धि तत्र नैवागमिष्यतः सर्वसिद्धिविहीनश्च भवेद् दुर्बुद्धिसंयुतः देहान्ते नरकेश्वेव सपचेन्नात्र संशयः शिवविष्णुमुखानां स ज्यैष्ठश्चैव प्रकीर्तितः तस्योल्लङ्घनमात्रेण भ्रंशयिष्यन्ति देवताः यथा गणपतिद्वेषाद्बलिं वैष्णवमुत्तमं नरकेषु निबध्यैवोऽद्यतो विष्णोर्बभूवः संध्यादि कर्मव चायम् सर्वादौ सम्मदो बुधैः तस्य पूजनमात्रेणैकनिष्ठा नैव खण्डिता गणेश तदा गणपतिः सदा एकः पूज्यो न सन्देहोऽन्येषामावश्यखण्डनात् ये कनिष्ठसमाभक्तिर्विद्यतेनैव निश्चितं ब्रह्मणानां विधं तेन विश्वभक्त्या प्रपूजितं जगद्ब्रह्मयुधो देवस्वेष्ठसम्पूर्णभावतः पूजितस्तेन भवति सन्तुष्टे सकलं सदा एकनिष्टो यदा भक्तस्तथा देवोऽपि मानद एकभक्ताश्रितो भूत्वा भवत्तत्रैव संस्थितः एतत्तेकधितं दक्षभजनं त्रिविधं मया अनेन भक्तिमार्गेण वाञ्छितं लभदे नरः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते भक्त्रिमार्गवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॐ